श्रीमद्भागवतमहापुराणं पञ्चमस्कन्द अथ सप्तदशोऽध्यायः गङ्गाजी का विवरणम् और्भगवान् शङ्करकृत् शङ्कर्षणदेवकी तत्र भगवतः साक्षात् यज्ञलिङ्गस्य विष्णोः विक्रमतो वावपादाङ्गुष्ठ नखं निर्भिन्नोर्ध्वाण्डकटाहविवरेणान्तप्रविष्ट या बाह्य जलधारा तच्चरणपङ्कजावले जन्नारुण किञ्जल्कोपरञ्जितादखिलजगदं घं मलापं मलापहोस्पर्शनामलां साक्षाद्भगवद्पतीत्यनुपलक्षितं वचोभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवन्ततार यत्तद्भ्यष्णो पदमाहु यत्र वावीरव्रत औत्तानपादि परं भागवतोऽस्मन् कुलदेवताचरणारविन्दोदगमिति यामनुसवनमुद्गृश्यमाणं भगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदयोत्कण्ठ व्यसा मेलितलोचनयुगलकुङ्कमलं दिगलितं बणपाष्पकलयाभिव्यञ्जमानरोम पुलककुलकोऽधुनापि परमादरेण शेषा विभजते ततः सब्दऋतश्चन्द्रभावाभिज्ञायां नरो तपस आत्यन्तिके सिद्धिरे तावती सर्वात्मनिवासदेवेनोपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्तिं वा गतां मुक्षव इवं स बहु मानमद्यापि जटाजूटैरुद्वहन्ति ततोनेकसहस्रकोटिविमानादिकसङ्कुलं देवया नेनावतं तरन्ति तरन्तीन्दुमण्डलम् आवार्य ब्रह्मसदने निपतति तत्र चतुर्धा भिद्यमाना चतुर्भिर्णामभि चतुर्दिशम् अभिस्पन्दति नदनदीपतीं देवाभिनिवशति शीतालङ्क सीतालकनन्दां चतुर्भद्रयति सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखिरेभ्योऽधोध प्रसवन्ति गन्धमादनमूर्धसोम् प्रतिद्वान्तरेण भद्रा स्ववरसं प्राज्ञां दिशि क्षारसमुद्रम् अभिप्रविशति एवं माल्यवत्सै खराणि पतन्ति ततो नूपरतवेगाकेतुमालम् अभि चक्षुः प्रतिज्ञां दिशि सरिद्वतिं प्रविशति भद्रा चोत्ततों वेरुशीर्षो निपतिता गिरिशिखरादङ्गिरिशिखरम् अतिहाय सिङ्गवतः सिङ्गादवस्यन्दमाना उत्तरांसु कुरोन भीत उदित्यां दिशि जलभिम् अभिप्रविशति तथैवालकनन्दां दक्षिणेन ब्रह्मसदनाद् बहूनि गिरिकूटान्यतिक्रम्य हेमकूटाद्धेमकूटान्यतिरं भसं तरहंसा लुठयन्ति भारतं अभिवर्षम् दक्षिणस्यां दिशि जलधिम् अभिप्रविशति यस्यां स्नानार्थं चागच्छत पुंसपदे पदे, पदे स्वमेध राजसूयादीनां फलं न इति अन्ये च न दानद्यस्य वर्षे वर्षे सन्ति बहुशों देवादिगिरिर्द्वितरसत तत्रापि भारतमेव वर्षं कर्मक्षेत्रम् अन्यान्यष्टवर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भवमानीं स्वर्गपदानि व्यपदिशन्ति येषो पुरुषाणाम् अयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां भद्रसङ्घननं बलवयो मोद प्रमु प्रमुदितम् समुदितमहासौरथमिथुनं व्यवायाम्पं वर्गवर्षधिकगर्भकलत्राणां तद्र तु त्रेतायुगसमकालो वर्तते